मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं फोर्टि फैव् दम्भासुरशान्तिकथनम् श्रीगणेशाय नमः मुद्गल उवाच शृणुदक्षमः प्राज्ञमहद्दम्भस्य कौशलं त्यक्त्वा सुरस्वभावं स संस्थितो प्रादरुद्धाय दैत्यांश सर्वानाकार यत् स्वयम् उवाच तान्महातेजा वचनम् शुक्रसन्निधौ दम्भासुर उवाच शृणुध्वमसुरा सर्वे गुरुणाहम् प्रबोधितः शरणं वक्रतुण्डं च यामि तत्र न संशयः सुराणामधिपो नायं नायं दैत्याधिपः कदा ब्रह्माकारेण सर्वत्र सिद्धिबुद्धिपदिस्थितः तस्य तद्वचनं श्रुत्वा कुपिता दानवास्तदा ययित्स्वं स्वं गृहं सर्वे त्यक्त्वा दम्भा दम्भा सुरप्रसन्नात्मा काव्येन सहितस्वयं शरणं गणनाथं च ययौ हर्षसमन्वितः नगराद्बहिरागत्य ययौ देवस्य सन्निधिं दण्डवत्पतितः पृथ्व्यां कृताञ्जलिरुपस्थितः महोत्सवः तुष्ट गणाध्यक्ष तद्दर्शनमहोत्सव यथान्याजयि निबद्धकसंपुड नमस्ते ब्रह्मरूपाय ब्रह्माकार ब्रह्माशरिणे ब्रह्मणे ब्रह्मदात्रे चा नमो नम नमस्ते त्रिदशेशाय दैत्यदानवपाय च सर्वत्र योगरूपाय भावहीनाय ते नमः सिद्धिबुद्धिपदे तुभ्यं नमः सिंहध्वजाय च गणानां पदये तुभ्यं नमो नमः यकदन्ताय देवाय ह्यनन्दविभवाय विघ्नेशाय महाविघ्ननाशनाय नमो नमः अपारगुणधाराय दैत्यदानवमर्दिने मनोवाणीमयाय इव सर्वरूपाय ते नमः मनोवाणीविहीनाय योगिभ्यो योगदायिने योगाय योगनाधाय विश्वपाय नमो नमः मायाधाराय मायाश्चालकाय नमो नमः मायाहीनाय सर्वत्र समभावधराय अव्यक्ताय नमस्तुभ्यं व्यक्तिमूलधराय च निर्मोहाय समोहाय लम्बोदर नमो नमः यं सोदुम्न समर्थाश्च वेदा साङ्गा महर्षयः योगीन्द्राब्रह्मविष्णवाद्यास्तं किं स्तौमि परात्परम् इत्युक्त्वा पदितपृथिव्यां दम्भो भक्तिसमन्विदः तमुद्धाप्यगणाधीश उचिवान् भक्तिभाविदः गणेश उवाच त्वया दम्भकृतं स्तोत्रं मम सन्तोषवर्धनं यः पठेत् पाठयेत् तद्वा स सर्वं धन पुत्रपौत्रकलत्रादिधनधान्यप्रदं भवेद् आधिव्याधिहरं चैव सर्वोपद्रवनाशनम् एककालं द्विकालं वा त्रिकालं सततं तथा यः पठेत् स नरोऽत्यन्तं मम प्रीतिकरो भवेद् त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः अधुना शरणं यादस्तदोहन्मिन निश्चितम् वरं वरय मत्तस्त्वम् यत्त्वच्चित्ते स्थितम् परं स्तोत्रेण भक्तिभावेन सन्तुष्टोऽहं ददामि ते गणेशवचनं श्रुत्वा दम्भो हर्षसमन्वितः उवाच गणपं तत्र भक्तिनम्रात्मकन्धरः दम्भासुर उवाच यदि देवेश दुष्टोसि यदि देयो वरोहिमे मे अचलां देहि ते तदा नाथ नमोऽस्तु ते आज्ञां त्वं ज्ञापय विभो वृत्त्यर्थं मेजसाम्प्रतं स्थानं देहि गणाध्यक्ष तत्र स्थास्यामि निश्चलः दम्भस्य वचनं श्रुत्वा गणेशस्तमुवाचः सुप्रसन्नतया दक्ष भक्तं गम्भीरनिःस्वनः सिद्धिबुद्धिपदिरुवाच भवितामयि भक्तिस्थे दृढाह्यव्यभिचारिणी तिष्ठस्थाने स्वके त्वं वै दम्भपर्षसमन्वितः न त्वं न्यूनोऽसि मे क्वापि देवा नैवाधिकामदाः स्वस्वधर्मे स्थिता सर्वे मम प्रीतिविवर्धनाः स्वधर्मत्यागदोषेण क्रुधोऽहं नाशयामि तान् निर्भयो भूत्वा चिरं तिष्ट महासुर यत्र मे नास्ति कार्यादौ दैत्यसत्तम तत्र त्वं दम्भभावेन कार्यनाशं सदा कुरु कर्मादौ पूजनं यत्र मम नास्ति तदा तद्भ्रंशभावेन निष्फलं कुरु सर्वदा मम भक्तिसमायुक्ता ये नरा सततं प्रियाः तान् पालयप्रयत्नेन दम्भहीनस्वभावदः यत्र मे नास्ति पूजनं च महामदे आदौ तत्र च ते भागकर्मरूपो मया एवमुक्त्वा सदं दम्भं गणेशोमथे स्वयं देवाश्च मुनयत् सर्वे जयेत्युक्त्वा ययुस्ततः स्वस्वस्थानेषु दीप्तास्ते स्थिता भयविवर्धिताः पातालविवरे दैत्यास्थिता निर्व्याकुला प्रभो एवं दम्भासुरं स चकारगजाननः ब्रह्मपुत्रत्वमापन्नस्तदप्युक्तं मया परम् ययेदच्छृणुयान्नित्यं श्रावयेद्वा समाहिदः स दम्भभयनिर्मुक्तो यादिब्रह्म सनातनं यं यं चिन्तयदे कामं तं तं प्राप्नोति मानवः सर्वसम्वत्समायुक्तस्तिष्ठे द्वै विघ्नवर्जितः अधुना वामनस्तापि कथयामि समासदः चरित्रं गणनाथस्य भक्त्या युक्तं महाद्भुतम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोप निशदि पुराणोपनिषदिश्रीमगले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दंभासुराशाकथनमच्शोध्याय